अथ सप्तषष्टितमः सर्गः पूर्वजोऽप्युक्तमात्रस्तु लक्ष्मणेन सुभाषितम् सारग्राही महासारम् प्रति राघवः सनिगृह्य महाबाहुः प्रवृद्धम् रोषमात्मनः अवष्टभ्यधनुश्चित्रम् रामो लक्ष्मणमब्रवीत् किम् करिष्यावहे वत्स क्व केनोपायेन पश्यावः सीतामिह विचिन्तय तम् तथा परितापार्थम् लक्ष्मणो वाक्यमब्रवीत् इदमेव जनस्थानम् त्वमन्वेषितुमर्हसि राक्षसैर्बहुभिक्कीर्णम् नाना भिक्केर्णं सन्ती ह गिरिदुर्गाणि निर्दराः कन्दराणि च गुहाश्च विविधा घोरा नानामृगगणाकुलाः आवासाः किन्नराणाम् च गम्भर्वभवनानि च तानि युक्तो मया सार्धम् समन्वेषितुमर्हसि त्वद्विधा बुद्धिसम्पन्ना महात्मानो नरर्षभाः आपत्सु न प्रकम्पन्ते इत्युक्तस्तद्वनं सर्वं सर्वम् क्रुद्धो रामशरम् घोरम् सन्धाय धनुषिक्षुरम् ततः महाभागं महाभागम् द्विजोत्तमम् ददर्शपतितम् भूमौ शतजार्द्रम् जटायुषम् तम् दृष्ट्वा गिरिशृङ्गाभम् रामो लक्ष्मणमब्रवीत् अनेन सीता वैदेही भक्षितानात्र संशयः गृध्ररूपमिदम् व्यक्तम् रक्षो भ्रमतिकाननम् भक्षयित्वा विशालाक्षीमास्ते सीताम् यथा एनम् वदिष्ये दीप्ताग्रैः शरैर्घोरैरजिम्भगैः इत्युक्त्वाभ्यपतद्द्रष्टुम् सन्धाय धनुषिक्षुरम् क्रुद्धो रामः समुद्राम् ताम् चालयन्निव मेदिनी तम् अभ्यभाषत पक्षी स रामम् दशरथात्मजम् यामोषधीमि वायुष्मन्नन्वेषसि महावने सा देवी मम च रावणेनोभयम् हृतम् त्वया विरहिता देवी लक्ष्मणेन च राघवा ह्रियमाणा मया दृष्टा रावणेन बलीयसा सीतामभ्यवपन्नोऽहम् रावणश्चरणे प्रभो विध्वंसितरथच्छत्रः पतितो धरणीतले एतदस्य धनुर्भग्नमेते चास्य शरास्तथा अयमस्य रणे रामभग्नः साङ्ग्रामिको रथः अयम् तु सारथिस्तस्य मत्पक्षनिहतो भुवि परिश्रान्तस्य मे पक्षौ छित्त्वा खड्गेन रावणः सीतामादाय वैदेहीमुत्पपातविहायसम् रक्षसा निहतम् पूर्वम् मान्न हन्तुम् त्वमर्हसि रामस्तस्य तु विज्ञाय सीतासक्ताम् प्रियाम् कथा गृध्रराजम् परिष्वज्य परित्यज्य महद्धनुः निपपातावशो भूमौ रोदसः लक्ष्मणः द्विगुणीकृततापार्तो रामो धीरतरोऽपि सन् एकमेकायनेकृच्छ्रे निश्वसन्तम् मुहुर्मुहुः समीक्ष्य दुःखितो रामः सौमित्रिमिदमब्रवीत् राज्यम् भ्रष्टम् वने नष्टामृतो द्विजः ईदृशीयम् ममालक्ष्मीर्दहेदपि हि पावकम् सम्पूर्णमपि चेदद्य प्रतरेयम् महोदधिम् स्वपि नूनम् ममालक्ष्म्या विशिष्येत्सरिताम् पतिः नास्त्यभाग्यतरो लोके मत्तोऽस्मिन् सचराचरे येनेयम् महती प्राप्ता मया अयम् पितुर्वयस्यो मे महाबलः शेते विनिहतो भूमौ मम भाग्य विपर्ययात् इत्येवमुक्त्वा बहुशो राघवः सः लक्ष्मणः जटायुषम् च पस्पर्श पितृस्नेहम् निदर्शयन् निकृत्तपक्षम् रुधिरावसिक्तम् तम् गृध्रराजम् परिगृह्य राघवः क्व मैथिली प्राणसमागतेति विमुच्य इत्यादृशे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे सप्तषष्टितमः सर्गः